एवतिरण्डावदशकम् अक्रूरागमनम् कंसोतनारदगिरव्रजवासिनम् त्वाम् आकर्ण्यदीर्णहृदय सहि गान्तिनेयम् आहूय कार्मुकमकच्चलतो भवन्तम् आनीतु मे त्वद्दर्शणाक्षममला क्षितिपालभीत्या तस्याज्ञयैव पुनरीषिदुमुद्यतस्त्वाम् आनन्दबारमतिभूरितरम् बभार सोऽयम् रतेन सुकृतो भवतो निवासम् गच्छन् मनोरदगणाम् स्वयिदार्यमाणान् आस्वादयन् मुकुरपायभयेन दैवम् सम्प्राप्तयन् पति न किञ्चिदभिव्यजानात् द्रक्ष्यामि वेदशतगीतगतिम् पुमांसम् स्प्रक्ष्यामि किं स्विदपि नाम परिष्वजेयम् किम् निनायस भवन्मयमेव मार्गम् भूयक्रमातविविशन् भवदम् क्रिभूतम् बृन्दावनम् हरविरिम् च सुराभिवन्द्यम् आनन्दमग्नयिव प्रमोहे किम् किम् पच्छन्नवन्तत भवस्वितिस्थलानि पांसुष्ववेष्टत भवः शरणाङ्गितेषो किम् ब्रूमहे बहुजनायि तदापि जाता विरला परात्मन् सायं स गोपभवनानि भवश्चरित्र गीतामृत प्रसृतकर्णरसायनानि पक्ष्यन् प्रमोदसरितेव गच्छन् भवत् वत्तदर्शपसुदोगविलोकलोलम् भक्तोत्तमागतिमिव प्रतिपालयन्तम् भूवन् भवन्तमयमग्रजवन्तमन्तर्ब्राह्मानुभूतिरससिन्धुमिवो त्वमन्तम् सायन्तनाप्लवविशेषविक् गात्रौ दौपीतनीलरुचिताम्बरलोपनीयौ नातिप्रपञ्चद्रुतभूषणचारुवेषौ मन्दस्मिदाभ्रवदनौ स युवाम् ददर्श दूरात्र दात्समवरुह्य न मन्तमेनम् उत्थाप्यभक्तकुलमौलिमतो पाणिम् प्रगृह्य सबलोदगृहम् निनेत नन्देन सागममिदातरमर्शयित्वा तम् यादमम् ददुदिताम् निचमय्य वार्ताम् गोपेषु भूपतिनितेशकताम् निवेद्य नानाकथाभिरिगतेन निशानमैक्षे चन्द्रागृहे किमुत चन्द्रभगागृहेणो राधागृहेणो भवने किमु मैत्रविन्दे धूर्तो विलम्बत इति भ्रमदाभिरुश्चये आशङ्कितो निशिमरो पुरणातपाय कृष्णबोल् कृष्णबोल् कृष्णकृष्णबोल् राधा समेधसी राधे कृष्णबोल्